श्रीहरये नमः अथ नवमोऽध्यायः सुत उवाच संस्तुतो भगवानित्तं मार्गण्डेये नदीमता नारायणो नरसखप्रीत नारा आह श्रीभगवानुवाच भो भो ब्रह्मर्षिवर्यासि सिद्ध आत्मसमाधिना मयि भक्त्या न पायिन्या तपस्वाध्याय संयमै वयं ते परितुष्टास्मत त्वत् बृहत् व्रतचर्यया वरं प्रती च भद्रं ते वरदेशादपीब्सितम् ऋषिरुवाच जितं ते देवदेवे स प्रपन्नार्तिहराच्युत वरेणैतावतालं नो यद्भवान् समदृश्यत गृहीत्वा जधयो यस्य श्रीमद्पादाब्जदर्शनं मनसा योगपक्वेन स भवान् मेक्षकोचरः अथापि अम्बुजभद्राक्षपुण्यश्लोकशिखामणे द्रक्ष्ये मायां पालो वेदसद्वितां सुत उवाच ईदीडितोर्चितः कामं ऋषिणा भगवान् मुने ततेतिसस्मयन स स्मयन् प्राकात् भधर्याश्रममीश्वरः तमेवे चिन्तयन्नर्थं ऋषिस्वाश्रमये वसहा वसन् अग्न्यर्गसो मा भो भूवायुवियधात्मसो ध्यायन् सर्वत्र च क्वचित् पूजां विसंस्मार प्रेमप्रसरसम्प्लुतः तस्यैकधा भृगुश्रेष्ठपुष्पभद्रातटे मुनेः उपासीनस्य सन्ध्यायां ब्रह्मन् वायुरभुन्महान् तं चण्डसप्तं समुदीरयन्तं बालाः का अन्नभवन्करालः स्थिद्भिः स्वनन्त उच्चैरभिवर्षधाराः ततोऽ्यदृश्यन्तचतुःसमुद्राः समन्ततक्ष्मातलमाग्रसन्तः समीरवे घोर्मिभिरुग्रनग्र महापयावर्त गभीरघोषाः अन्तर्भगिश्चाद्भिरधित्युभिखरैः सदहृता भीरोपधापितं जगत् चतुर्विधं वीक्ष्य सहात्मना मुनेर्जलाप्लुताक्षां विमनाः समस्रस तस्यैवम् उद्वीक्षत ऊर्मिभीषणः प्रभञ्जनागोर्नितवार्महार्णवः अपूर्यमानो वर्षद्भिरम्बुधैः क्षामभ्यधा द्वीप वर्षाद्रिपिशमम् <laughs> सक्ष्मान्द्रिशं स दिवं सभागणं त्रैलोक्यमासीत् सखदिग्भृलाप्लुतं स एक एवोर्वरितो महामुनेर्भ्राम विक्षिप्य झटा ृतो बीचि न भस्वताहतः तमस्य पारे पतितो भ्रमन् दिशो नवेदकं घां च क्वचित् गतो महावर्ते तरलैस्ताडितः क्वचित् यथोभिर्भक्षते क्वापि स्वयम् अन्योन्यगादिभिः क्वचित् शोकं क्वचिन् मोखं क्वचिद् दुःखं सुखं भयं क्वचिन्मृत्युम् अवाप्नोति व्यात्याभीरुतार्धितः अयुत युतवर्षाणां सहस्राणि सतानि च व्यतीयोर्भ्रमतस्तस्मिन् विष्णुमायावृतात्मनः स कदाचिद् ब्रह्मस्तस्मिन् पृथिव्या खगुतिद्विजः यग्रोतपोतं तदृशे पल्लपल्लवशोभितं प्रागुत्र रस्यां तस्यापि धृशे शिशं शयानं पर्णपुटके ग्रसन्तं प्रभयातमः महामरकतश्यामं श्रीमद्वतनपङ्गजं गम्बुग्रीवं महारस्कं सुनासं सुन्दरभ्रुवं स्वासैज अलकाभातं कम्भुश्रीकर्णधाडिमं विद्रुमाधरपाशेषश्चोणायितसुधास्मितम् पद्मगर्भारुणाभाङ्गं हृद्यः सावलोकनं स्वासै जद्बलिसंविघ्ननिम्ननाभितलोदरम् सार्वङ्गुलिभ्यां पाणिभ्यामुन्नीय चरणाम्बुजम् मुखे निधाय बिभ्रेन्द्रोधयन्तं वीक्ष्य विस्मितः दत्तर्चनात्वितपरिश्रमो मुदा प्रोत्पुल्लहृत्पद्मविलोचनाम्भुजः प्रहृष्टरोमाद्भुतभावसङ्कितः प्रष्टुं पुरस्तं प्रसारबालकं तावत् स्वसितेन भार्गवः सोऽन्तरीरम् असखो यथा विस कृष्णसो यथा पुरा मुह्यधतीव विस्मितः कं रोदसी भगणानद्रिसाघरान् द्वीपान् सवर्षान् खगुभः सुरासुरान् वनानि देशान् शरितः पुराकरान् केटान् महान्तिभूतान्यतभौतिकान्यसौकालं च नानायुगकल्पकल्पनं यत्किञ्चिदन्यद् व्यवहारकारणं दर्श सदिवावभासितं हिमालयं दिवावभासितं हिमालयम् पुष्पवहाञ्च तां नदी निजाश्रमं तत्र रुचिः न पश्यत् विश्वं विपश्यन् स्वचिताचिसोर्वै बहिर्निरस्तोऽन्यपतल्लयाब्धौ तस्मिन् पृथिव्या खगुतिप्ररूढं वडं च तत्पर्णपुटेशयानम् च तत्प्रेम सुधास्मितेन निरीक्षितोपाङ्गनिरीक्षणेन अत तं बालकं वीक्ष्य नेत्राभ्यां तिष्ठितं कृते अप्ययाधति संक्लिष्टः परिष्वक्त्वमधोक्षजम् तावत् स भगवान् साक्षात् योगादिशो गुहाशयः अन्तर्दधरुषेः सद्यो यते यतेहानीश निर्मितम् तमन्वतवटो ब्रह्मन् सलिलं लोकसम्प्लवः तिरोधाये क्षणा तस्य स्वाश्रमे पूर्ववत्स्थितः इति श्रीमद्भगवते महापुराणे द्वादशस्कन्धे मायादर्शनं नाम नवमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरोनाथमहराजी जय